मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं सिक्स्टि सेवेन् राधाकृष्णगोलोकप्राप्तिवर्णनम् श्रीगणेशाय नमः ब्रह्मोवाच एवं परस्परं शक्त्वा खेदयुक्ता बभूविरे गदगर्वाश्च सर्वे ते विचारं चक्रुरादराद अहं गोलोकराजोऽहं सर्वाधीशो न संशयः इयं प्रकृतिरूपा मे केना केनापराधिनौ कृष्णोऽहं सर्वदेवेश अपि मां विघ्न उद्धितः अतो वै विघ्नराजः स गणेशः कुरुदेखिलम् हिताहितं न सन्देहस्तदाधारमिदं जगद सस्त्रीकः शरणं यामि ब्रह्मा कारमतश्चतम् येवं विचार्य देवेश्य शस्त्रीको मित्रसंयुतः पपाद भगवान् कृष्णो मृत्युलोके महामुने मधुरायां च देवक्यां वसुदेवात्समुद्भवः कृष्णो यादववंशे वै तेषां स सुखदो भवद वृषभानुसुधा जादा राधा स गोकुले मुने शङ्खचूडो बभूवाध दा। श्रीदामासुरसत्तमः ततश्च गोकुलं कृष्णः कंसस्यैव भयाद्ययौ तत्र राधासमयुक्तो बभूवस जनार्दनः तदो विघ्नेशमत्यन्तं भेजतुस्तौ स्वभावतः षोडशाक्षरमन्त्रेण परे तपसि संस्थितौ पुरश्चरणमेकं तौ चक्रदुःपरमादराद बभूवधुस्तदोध्यानसमायुक्तौ निरन्तरम् तपस्यत्वा तस्य हृदि ध्यानयुक्तौ विशेषतः तपःसोऽद्धिकमुग्रं वैध्यानं शास्त्रेषु सम्मतं संवत्सरां स तत्रैव कृष्णश्चैकादशस्थितः तत्रश्च मधुरायां स शतवर्षं वियोगेन राधाकृष्णौ बभूवधूः युक्तौ परमदुःखार्तौ ध्यायन्तौ गणनायकं ततस्तयोश्च सम्प्राप्तो योगशान्तिप्रदायकः तेन सन्तोषमापन्नौ गाणभत्यौ बभूवधुः गदे वर्षशदे विप्रजग्मदुःस्थौ सहानुघौ वैशाखपूर्णिमायां वै मुने भदरिकाश्रमम् तत्र शम्भुमुखा देवास्रीकाश्च समागताः यात्रार्थं गणनाथस्य मुनयश्च ययुर्मुदा शेषादयो महानागाराजानश्च विशेषतः त्रिलोकस्था जनाः सर्वे जग्मुस्तत्र महामुने योगिनः कपिलाद्याश्च तत्राहं संगदो मुने सर्वैर्महोत्सवस्तत्र महोत्सवस्तत्रा क्रियते सदा ततस्तम् पूजयित्वा ते सर्वे चोपोषणान्विताः स्थिताश्चक्रुः प्रतिपदिपारणं ते महामुने तत्र राधा च कृष्णश्च मिलितौ गणपं निशि ध्यायन्तौ भावसंयुक्तौ जयपदुर्मन्द्रमुत्तमं तदस्तयोर्गणेशानो दर्शयामास चोत्तमं रूपं चतुर्भुजं साक्षाद्गजवक्त्रादिचिह्निदम् तं दृष्ट्वा सहस्रोद्धाय नेमतुश्चरणाम्बुजे सरोमाञ्चौ तुष्टुवधुः साश्रुनेत्रौ गणेश्वरं राधाकृष्णावूचदुः नमस्तुभ्यं पुष्टिपदे नमः शङ्करसूनवे ब्रह्मभूताय देवाय सर्वसिद्धिप्रदायते दे। स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः सिद्धिबुद्धिपदे ते वै गणेशाय नमो नमः हेरम्बाय नमस्तुभ्यं नमो योगमयाय च सर्वादये च सर्वेश्च सर्वज्ञाय नमो नमः निर्गुणाय नमस्तुभ्यं सगुणाय नमो नमः गजाननाय ना वैतुभ्यमभेदाय तयोर्नमः शान्तिरूपाय शान्ताय शान्तिदाय महोदरमूषकश्रेष्ठयानाय गणपत्यप्रियाय ते अनन्दानन्दरूपाय भक्तसंरक्षकाय च भक्तिप्रियाय देवाय भग्र्याधीनाय ते नमः चतुर्बाहुधरायैव नागयज्ञोपविदिने शूर्पकर्णाय शूराय परशोर्धरते नमः विष्णुपुत्राय सर्वेषां पित्रे मात्रे नमो नमः विनायकाय विप्राणां पुत्राय च नमो नमः गर्वंत्रे चर्वे सुखदायते लंबोदराय विघ्ने ब्रमनाये नम किस्ता गणाधीश वेदादय प्रभो शंभुशुकाद बभूव कुंडीता आवां गर्वयुतौ जातौ ब्रह्माकारौ वृद्धा प्रभो तव तत्र च विघ्नेन कृतं गर्वस्य खण्डनं साधूनां विघ्नदां शान्तियोगार्थमञ्जसा असाधूनां विनाशाय ह्यतस्त्वां प्रणमावहे विघ्नयुक्ततया ढुण्ढे आवाभ्यां योगसेवया साक्षात्कारकृतस्त्वं वै समीचीनमिदं कृतं कृति चिन्तामणिं त्वां च पश्यावः सततं प्रभो अतः शुभदो विघ्नः संजातो नौ गजानन अधुना देहि विघ्नेशभक्तिं ते चरणाम्बुजे दृढां यया च गर्वेण न समायुतौ युत्युक्त्वा तं नानृतधुप्रणं ह्यैव मुदान्वितौ धन्यौ धन्यौ प्रब्रुवन्तौ दर्शनाद्गणपश्यतौ ब्रह्मोवाच जगादगणनाधस्तौ ततो वैभक्तिभाविदः दृष्ट्वा ब्रह्म रसाह्वादयुधौ राधा जनार्दनौ पुष्टिपदिरुवाच भो राधे कृष्णमेवाक्यं शृणुदं जगदीश्वरौ मदीयां भक्तिमत्यन्तं संशयो न संकडे सङ्कटे स्मरणेनैव प्रकटः सम्भवाम्यहं यं यम यमिच्छद आनन्दं सफलः स भविष्यति भवत्कृतमिदं स्तोत्रम् पठदां शृण्वतां नृणां सर्व सिद्धिप्रदं पूर्णं भविष्यदि सुरेश्वरौ मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेद् अन्ते स्वानन्ददं कृष्णभविष्यदि न संशयः एव मुक्त्वान्तर्दधेसौ गणेशो ब्रह्मनायकः तौ ता। तं हृदि विशेषेण पश्यन्तौ तस्तदुर्निशि ता। ततः गोलोके गदौ राधाहरीष्वके बभूवधुरखण्डैश्वर्यसंयुक्तौ महामुने अतस्त्वमदहीनश्च शरणं गणपं व्रज अकथ्यते न ते वाञ्छां पूरयिष्यति स प्रभुः ब्रह्माण्डं वर्तते सर्वत्र <Suk password> गणनातोऽयं क्रीडति स्वेच्छया स्वयम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः ओम्